श्रीहरये नमः अथ सप्तदशोऽध्यायः श्रीशुक उवाच इत्युक्ता सादिति स्वभद्राकश्यपेन वैम् अन्वतिष्ठव्रतमिदं द्वातसाहम् अत चिन्त्यन्त्येकया बुद्ध्या महापुरुषमीश्वरं प्रगृह्येन्द्रिय दुष्टास्वान् मनसा बुद्धिशारथिः मनश्चैकाग्रया बुद्ध्या भगवती अखिलात्मनि वासुदेव समाधाय चचारकपयोव्रतम् तस्या प्राधुरभूतात् भगवानातिपूरुषः पीतवासाश्चतुर्बाहो शङ्खचक्रगदाधरः तं नेत्रगोचरं वीष्यन् सह सोत्थाय साधरं न नाम भुविकायेन दण्डवत्प्रीतिविह्वलान् सोत्थाय बद्धाञ्जलिरीडितुं स्थिता नोत्सेह आनन्दजलाकुलेक्षणा बभूव तूष्णीम् पुलकाकुलाकृते तत्तर्शनात् उत्सवगात्रवेपतुः प्रीत्यासनैर्गद्गतया गिराहरिं तुष्टावसा देव्यधिते कुरोद्वघा उद्विषती सा विपतीव चक्षुषा रमापतिं यज्ञपतिं जगत्पतिम् सं न विश्वाय विश्वभवनस्थितिसंयमाय स्वैरं गृहीत पुरुषक्तिगुणाय भूम्ने स्वस्थाय शश्वत् उभबृंहित पूर्णभूत व्याबादितात्मतमसे हरये नमस्ते आयुः परं वपुरभीष्टं मतुल्यलक्ष्मी द्यो भूरसासकलयोगुणास्त्रिवर्गः ज्ञानं च केवलमनन्तभवन्ति तुष्टात् त्वत्तो नृणां किमु सपत्न जयातिरासी भगवान् पुष्करेक्षणः क्षेत्रज्ञ सर्वभूतानाम् इति होवाच भारत श्रीभगवानुवाच देवमातर्भवत्या मे विज्ञातं शिरकाङ्क्षितं यत्सपत्नैर्कृतश्रीणां चाभितानां स्वधामतः तान् विनिर्जित्य समरे दुर्मधा न सुरर्षभान् प्रतिलब्धजय श्रीभि पुत्रैरश्च स्युपासितुम् इन्द्रज्येष्ठैस्वधनयैर्हतानां युतिविद्विषां स्त्रियोरुधन्ती आसाध्यं द्रष्टुमिष्ट सि दुःखिताः आत्मजान्सु समृद्धा त्वं प्रद्याहृतय सश्रियः नाकपृष्ठम् अधिष्ठाय क्रीडतो द्रष्टुमिश्चसि प्रायोधुना ते सुरयूतनात अपारणीया इति देवि मे मतिः यत्तेऽनुकूलेश्वर विप्रगुब्धा नविक्रमस्तत्र विक्रमस्तत्र सुखं दधति अथाप्युपायो मम देवि चिन्त्य सन्तोषितस्य व्रतशर्ययाते ममार्चनं नार्हति गन्तुमन्यथा श्रद्धानुरूपं फलहेतुकत्वात् पयार्चितश्चाकमपत्यगुप्तये पयोव्रतेन अनुगुणं समीडितः स्वामसेन पुत्रत्वमुपेत्यथे सूतान् गुप्तास्मि मारी च तपस्य धिष्ठितः उभधावपतिं भद्रे प्रजापतिम् अकल्मषं मां च रूपमवस्थितम् नैतत्परस्मा आख्येयं पृष्टयापि कथञ्चन सर्वं सम्भत्यते देवे देवगुह्यं सुसंवृतं श्रीशुक उवाच एतावत् उक्त्वा भगवान् तत्रैव अन्तरदीयत अधिथिर्दुर्लभं लब्ध्वा हरेर्जन्मात्मनि प्रभोः उपाधावत्पतिं भक्त्या परया कृतकृत्यवत् स वै समाधियोगेन कश्यपस्तध बुध्यत प्रविष्टम् आत्मनि हरेर् अंसं ह्यवितयते तपसा चिरसम्भृतं समाहितमनाराजन् दारुण्यग्निं यथानिलहा अदितेर्दिष्टितं गर्भं भगवन्तं सनातनं हिरण्यगर्भो विज्ञाय समीडे गुह्यनामभिः ब्रह्मोवाच चयोरुगाय भगवन् उरुक्रमनमोऽस्तु ते नमो ब्रह्मण्यदेवाय त्रिगुणाय नमो नमः नमस्ते पृश्निगर्भाय वेदगर्भाय वेदसे त्रिनाभाय त्रिपृष्टाय सिपिविष्ठाय विष्णवे त्वमातिरन्तो भुवनस्य मध्यम् अनन्तशक्तिं पुरुषं यमाहुः कालो भव कालो भवानशिपति स श्रोतो यथान्तः पतितं गभीरं त्वं वै प्रजानां स्थिरजङ्गमानां प्रजापती नामसि शम्भविष्णुः दिवौकशां देवदिवश्च्युतानाम् परायणं नौरिवमज्जतोप्सु इति श्रीमद्भागवते महापुराणे अष्टमस्कन्दे वामनप्रादुर्भावे सप्तदशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द जय